ब्रह्मा आत्मन्वदसृजत तदकामयत समात्मनापत्येजेति आत्मन्दात्मन्नित्यावन्त्रजत तस्मै दशपगम्भूतः प्रत्यशृणोत् तदश हूतो भवति दशहोतो ह वैना वैषः तम् वा एतम् दशहोतकम् सन्तम् दश होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मै सप्तमगुम्भूतः प्रत्यशृणोत् स सप्तहूतो भवते सप्तहूतो ह वैनामैषः तम् वा एतगुम् सप्तहूतगुम् सन्तम् चक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मै षष्ठगम् भूतः प्रत्यशृणोत् स षड्भूतो भवत् षड्भूतो ह वैदावैषः तम् वा एतकम् षड्भूतकम् सन्तम् षड्होतेत्याचक्षते परोक्षेण परोक्षप्रिजा इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चपगुम्हूतः प्रत्यशृणोत् स पञ्चहूतो भवते पञ्चहूतो हवैनामैषः तम् वा एतम् पञ्चहोतकम् सन्तम् पञ्चहोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मै चतुर्थकम्भूतः प्रत्यशृणोत् स भवते। भवत् चतुर चतुर्हूतो ह वैनामैषः तम् वा एतम् चतुर्हूतगुम्सन्तम् चतुर्हूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीते त्वम् वै मे नेदिष्ठगम् हूतः प्रत्यश्रौषिः त्वयैनानाख्यातार इति तस्मान्नो हैनागश्चतुर्होतार इत्याचक्षते तस्माच्छुश्रोषुः पुत्रा नागम् हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् वेद योऽपाम् पुष्पम् वेद पुष्पवान् प्रजावा अन्पशुपान्भवति चन्द्रमावा अपाम् पुष्पम् पुष्पवान् प्रजावा अन्पशुवान् भवति य एवम् वेद यो योऽपामायतनम् वेद आयतनवान्भवति अग्निर्वा अपामायतनम् राजतनवान्भवति यो ओग्नेरागतनम् वेद आगतनवान्भवति आपो वा अग्नेरायतनम् आयतनवान्भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान्भवति यो वायोरायतनम् वेद आयतनवान्भवति आपो वै वायोरायतनम् आयतनवान्भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवति असौ वै तपन्न पामायतनम् आयतनवान्भवति यो मुष्यतपत आयतनम् वेद आगतनवान्भवति आपो वा अमुष्यतपत आगतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आगतनवान्भवति चन्द्रमा वा अपामायतनम् आगतनवान्भवति यश्चन्द्रमस आयतनम् वेद आयतनवान्भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान्भवति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 योपामायतनम् वेद आयतनवान्भवति पर्जन्यो वा अपामायतनम् आयतनवान्भवति यः पर्जन्यस्यायतनम् वेद आयतनवान्भवति आपो वै पर्जन्यस्यायतनम् आयतनवान्भवति य एवम् वेद योऽपमागतनम् वेद आयतनवान्भवति संवत्सरो वा अपामागतनम् आयतनवान्भवति यः संवत्सरस्यायतनम् वेद आयतनवान्भवति आपो वै संवत्सरस्यायतनम् आयतनवान्भवति य एवम् वेद यो ओप्सुनावम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाजप्रसह्यसाहिदे नमो भयम् वै ईश्वरभटाज कुर्महे समेकामान् काबकाबाज मह्यम् कामेश्वरो वै ईश्वभटो ददातु कुबेराज वै श्रभटाज महाराजा जनमः यो वै ताम् ब्रह्मणो वेद अमृतेनावृताम् पुरी तस्मै ब्रह्म च ब्रह्मा च आयुष्कीर्तिम् प्रजाम् ददुः ओम् शान्तिशान्तिः शान्तिः